भुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दबाजा भवतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमेशानमीरेशिवं शङ्करं शम्भुमे शालं शिवं शङ्करं शम्भुमेशानमीरे शिवं शङ्करं शम्भुमेशानमीढे शंभुमि शान मीडेश्वं शङ्करं शम्भुमि तटादनिवासं महाटाटहासं महापापनाशं गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शंभुमि शान गिरीन्द्रात्मजा संगृहेता ददेहं गिरो संस्थितं परब्रह्म ब्रह्मादिप्यवद्यमानं शिवां शङ्करं शं शिवं शं कपालं त्रिशूलं करह्व्यां ददानं पदाम्बोजनं रायिकामं ददानं बलिवर्धियानां सुराणां प्रधानं शिवं शङ्करं शंभुमिषानीडे शिवं शङ्करं शं हरं सर्वहारं चितः बुविहारं बहं वेदसारं सदा निर्विकारम् शमशानि वसन्तं मनोजं दहन्तं शिवं शङ्करं शंभुमिशानमीरें शङ्करं शं भुमि पठे सर्वदानुरत्नो सुपुत्रं धनं दानि मित्रं कलत्रं विचित्र समासादि मोक्षं प्रयातिश्वं शंश प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्द शिवं शङ्करं शम्भुमेशानमीरे शिवं